शरीरैरपरे दीप्तैर्देहवन्तैवाग्नयः अदृश्यन्तवनेतत्र प्राणिनः प्राणिसंक्षये कांश्चिदुत्पततः पार्थः शरैः सञ्च्छिद्यखण्डशः पातयामास विहगान् प्रदीप्तेव सुरेतसि देशराजितसर्वाङ्गानि न दन्तो महारवान् ऊर्ध्वमुत्पत्य वेगेन निपेतुः खाण्डवे पुनः शरैरभ्याहतानाम् च सङ्घश स्मवनौकसाम् विरावः शुश्रुवे घोरसमुद्रस्येव मथ्यतः वह्नेश्चापि खमुत्पेतुर्महार्चिषः जनयामासु ऋद्वेगं सुमहांतं दिवौकसां तेनार्चिषासु सन्तप्ता देवाः ततो जग्मुर्महात्मानः सर्व एव दिवौकसः शतक्रतुं सहस्राक्षम् देवेशमसुरार्दनं शमसुरार्दनं देवावूचुः किं विमे मानवाः सर्वे चित्रभानुना कच्चिन्नसङ्क्षयः प्राप्तो लोकानाममरेश्वर